ब्रह्माण्डपुराणं <Brahmanapuranam>, अध्यायं 46 भार्गवचरितं वसिष्ठ उवाच स गच्छन् पथिशुश्रावमुनिभ्यस्तत्त्वमादिदः राजपुत्रव्यवसितं पित्रौ स्वर्गदिमेव च पितुस्तु जीवहरणम् शिरोहरणमेव च तन्मृतेरेव मरणं श्रुत्वा माधुश्च केवलं विललापमःबाहुर्दुःखशोकसमन्वितः तमधाश्वासयामास तुल्यदुःखो कृतव्रणः हे दुभिस्त्रनिर्दिष्टैर्वीर्यसामर्थ्यसूचकैः युक्तिलौकिकदृष्टान्तैस्तच्छोकं सव्यशामयद सान्त्वितस्तेन मैथावी धृतिमालम्ब्य भार्गवः प्रययौ सहीदसख्या भ्रातॄणां तु दिदृक्षया स तान् दृष्ट्वाभिवाद्यैतान्दुःखितान् दुःखकर्षितः शोकामशयुतस्तैश्च सखतस्थौ दिनत्रयं ततोऽस्य सुमहान् क्रोधस्मरतो निधनं पितुः बभूव सहसा सर्वलोकसंहरणक्षमः माधुरर्थे कृतां पूर्वं प्रतिज्ञां सत्यः सङ्गरः दृढीचकारहृदये सर्वक्षत्रवधोद्यतः क्षत्रवंश्यानशेषेण हत्वा तद्देहलोकितैः करिष्येतर्पणं पित्रोरिति निश्चित्य भार्गवः भ्रातॄणां चैव सर्वेषामाख्यायात्मसमीहितं प्रययौ तदनुज्ञाधकृत्वा संस्था पिदुः क्रियाम् अकृदव्रणसंयुक्तः प्राप्य माहिष्मदीं ततः तत् बाह्योपवने पवनेस्तित्वा सस्मारस रसमहोदरं स तस्मै रथचापाद्यं सहसाश्वसमन्वितं प्रेषयामास रामाय सर्वसंहननानि च रामोऽपि रथमारुह्य सन्नद्धसशरं गृहीत्वा पूरयच्छङ्कं रुद्रदत्तममित्रजिद ज्याघोषं च चकारो चैरोदसी कम्पयन्निव सहसाहोधसारथ्यं चक्रे सारथिनां वरः रथज्याः शङ्कनादयस्तु वधात्पित्रोरमर्षिणः तस्या भून्नगरी सर्वा संक्षुब्धाश्च नरद्विपाः रामं त्वागतमाज्ञाय सर्वक्षत्रकुलान्तकं संक्षुब्धाश्चक्रुरुद्योगं सङ्ग्रामाय नृपात्मजाः अध पञ्चरथाशूराशूरसेनादयो नृप रामेण योद्धुं सहिता राजभिश्चक्रुरुद्यमं चतुरङ्गलोपेतास्ततस्ते क्षत्रियर्षभाः राममासादया मासुः निवार्य तानापततो रथेनैकेन भार्गवः युयुधे पार्थिवैः सर्वैः समरेमिदविक्रमः ततः पुनरभूद्युद्धं रामस्य सह राजभिः संक्रुद्धो राज्ञां शतमुदारधीः तद स शूरसेनादीन् हत्वा सबलवाहनान् त्रणेन पादयामास क्षिदौ क्षत्रियमण्डलं तदस्ते भग्नसङ्कल्पा हदस्वबलवाहनाः हदशिष्टा नृपदयो दुद्रुवुः सर्वतो दिशम् सैन्यानि द्रव्यसैन हिवाध संयुगे जखान शोराजशूराग्निना तथ क्रोधभरीता दग्धुकामखिलादैरयत भार्गवोस्त्रं कालाग्निसदृशप्रभं ज्वालाकवलिताशेषपुरप्राकारमालिनीं पुरीं ददाहास्त्र ददाहास्त्रपावकः दह्यमानां पुरीं दृष्ट्वा प्राणत्राणपरायणः जीवनाय जगामाशु विधिहोत्रो भयातुरः अस्त्राग्निना पुरीं सर्वां दग्ध्वा हत्वा च शात्रवान् प्राश्य यानोऽखिलान् लोकान् साक्षात्काल इवान्तकः अकृतव्रणसंयुक्तसहसाहेन चान्वितः जगामरथघोषेण कम्पयन्निव मेदिनीं विनिघ्नक्षत्रियान् सर्वान् संशाम्य पृथिवीतले महेन्द्राद्रिं ययौ रामस्तपसे धतमानसः तस्मिन्नष्टचतुष्कं च यावत्क्षत्रसमुद्गमम् प्रत्येत्य भूयस्तद्धत्यै बद्धदीक्षो धृतव्रतः क्षत्रक्षेत्रेषु भूयश्च क्षत्रमुत्पादितं द्विजैः निजका न पुनर्भूमौ राज्ञ शतसहस्रशः वर्षद्वयेन भूयोऽपि कृत्वा निःक्षत्रियां महीं षट्चतुष्टयवर्षान्तं तपस्तेबे पुनश्च सः भूयोऽपिराजन्संबुद्धं क्षत्रमुत्पादितं द्विजैः जखानभूमौ निःशेषं साक्षात्काल इवान्तकः कालेन तावदा भूय समुत्पन्नं नृपा त्वयं निघ्नं चकारपृथिवीं वर्षद्वयमनारदम् अलं रामेण राजेन्द्रस्मरदा निधनं पितुः त्रिसप्तकृत्वः पृथिवी तेन निःक्षत्रिया त्रिसप्त कृत्वस्त यदुरस्वमताडयत तावद्रामेण तस्मात्तु क्षत्रमुत्सादितं भुवि इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धादपादे भार्गवचरिते षट्चत्वारिं सप्तमोऽध्यायः ओम्